ेवम् पतति संसारे तासु तास्विह योनिषु अविद्याकर्म तृष्णाभिर्भ्रम्यमाणोऽथ चक्रवत् ब्रह्मादिषु भूतेषु परिवर्तते जले भुवि तथाकाशे जायमानः पुनः पुनः अबुधानाम् गतिस्वेषा बुधानामपि वेशुणु ये धर्मे श्रेयसि रता विमोक्षरत योजनाः तदिदम् वेदवचनम् तस्माद्धर्माणि मान् सर्वान्नाभिमाना समाचरेत् इज्याध्ययनदानानि तपःसत्यम् क्षमादमः अलोभ इति मार्गोऽयन् धर्मस्याष्ट्रविधः स्मृतः अत्र पूर्वश्चतुर्वर्गस्वित्रियाणपथे स्थितः कर्तव्यमिति यत्कार्यन्नाभिमानात् समाचरेत् उत्तरो देवयानस्तु सद्भिराचरितः सदा अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् सम्यक् सङ्कल्पसम्बन्धात् सम्यक् चेन्द्रिय निग्रहात् सम्यग्व्रतविशेषाच्च सम्यक् च गुरुसेवनात् सम्यगाहारयोगाच्च सम्यच्चाध्ययनागमात् सम्यक् कर्मोपसन्न्यासात् सम्यक् चित्तनिरोधनात् एवम् कर्माणि कुर्वन्ति संसार रागद्वेष विनिर्मुक्ता ऐश्वर्यम्